सुभागिरः ज्युम्नेर्वादिभिराजतं वायश्च मे प्रसवश्च मे प्रयतिष्ठे प्रतिचिश्च मे भीतिश्च मे प्रतिश्च मेश्वरश्च मे श्वश्च मे श्रावश्च महे श्रुतिश्च मे च मे वाक्ष्मे मनुष्ठे चक्षुश्च मे श्रोत्रञ्च यक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुष्ठ मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे अङ्गानि च मे स्थानि च मे परोषि च मे शरीराञ्च मे जैष्ठञ्च भधिपत्यञ्च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जैमाच मे महिमाच मे वहिमा च मे प्रथिमा च मे वस्मा च मे द्राभुजा च मे वृद्धञ्च मे वृद्धिश्च मे श्रद्धा च मे जगच्छ मे धनं च मे क्रीडा च मे मोदश्च मे जातं मे जनिष्यमाणञ्च मे मे सुकृतं च मे वित्तञ्च मे कृप्तं च मे धृप्तिष्ठ मे मतिष्ठमेमतिष्ठमे शञ्च मे मयश्च मे प्रियं च मेकावश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वश्यश्च मे देशश्च मे भगश्च मे क्षीरञ्च मे लयश्च मृतं च मे मृतं च मे जक्ष्मं च मेना मेख्य मे देवादिक्ष्य मे दीर्घादित्वञ्च मे न मेत्रञ्च मे भयं च मे सुगं च मे शयनं च मे शोषाच मे सुजनं च मे ऊर्च मे सोनृचा च मे पयश्च मे रथश्च मे घृतं च मे मधु च मे सक्तिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रञ्च औद्भिद्यं नयश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे भुभुच मे प्रभुच मे बहुच पूर्णञ्चमे पूर्णचरञ्च मे क्षितिष्ठ मे कोयवाश्च मेञ्चमे क्षिष्टमे वृहयश्च मेदवा अष्टमे माराष्टमे मुद्दाष्टमे खल्वा अष्टमे गोधूमा अष्टमे मधुरा कस्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखताश्च मेवाधास्मतयश्च मे हिरण्यं च मेयश्च मे शेषञ्च मेत्रपुच्छ मे श्यामञ्च मे लौहञ्च मेभीश्च महापश्चमे वीरुधश्च मौरुदयश्च मे पृष्टभच्यञ्च मे पृष्टभच्यञ्च मे ग्राव्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तञ्च मे वित्तिष्ठ मे मे भूतिश्च मे वसुच मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एवश्च म्युतिश्च मे ऋथिश्च मे अक्तिश्च मैन्द्रश्च मे सौवश्च मे सभिता च भैन्द्रश्च मे सरस्वती च मैन्द्रश्च मे कोषात् मैन्द्रश्च मे बृहस्पतिश्च भैन्द्रश्च मे मित्रश्च भैन्द्रश्च भय वरुणश्च भैन्द्रश्च मे स्पृष्टा च मैन्द्रश्च मे धाता च महीन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे शिरौ च महीन्द्रश्च मे मरुतश्च मैन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च भ इन्द्रश्च मेऽन्तरिक्षं च मरीन्द्रश्च मे यौश्च मैन्द्रश्च मे दिशश्च मे मोर्धा च भैन्द्रश्च मे प्रजापतिश्च मरीन्द्रश्च मेभुंसिश्च मे रक्ष्मिश्च मेदाभ्यश्च मेधिपतिश्च उहापुंषिष्ठमेऽन्तर्यवश्च ऐन्द्रवायवश्च मे मैत्रावरोधश्च महानश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे वञ्चीत आग्रहेण वैश्वदेवश्च मे ध्रुवश्चमेवरश्च मरुग्रहाष्टमे तिग्राक्ष्या अष्टमे ऐन्द्राग्नस्थमेवदेवस्त मरुद्वितीया अष्टमे माहेन्द्रष्टम आदित्यश्च मेधा विश्रश्च मेधादस्तमे पौष्णश्च मे पाति वचश्च मे हार्यो जनश्च मे विद्वश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृतश्च मे च भसाश्च मे गृहाश्च मे सजश्च मे पुरोश्च मे पञ्चताश्च मे वभृतश्च मे स्वगाकाश्च मे अग्निष्ट मे धर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे मे षक्वधिरङ्गुलज्योतिषश्च मे यज्ञेन कल्पन्थामृष्टमे काम च मे मे च मे तुर्यवाच मे तुक्षा च मे वशा च मारुभश्च मे वेहच्च मे ऋद्वाच्च मे धेनुश्च महायुर्वज्ञानकल्पतां प्राणो विज्ञानकल्पतां पानोविज्ञानकल्पतां ज्ञानो विज्ञानकल्पतां चक्षुर्यज्ञानकल्पता वं श्रोत्रं यज्ञानकल्पता मनोविज्ञानकल्पधां वा विज्ञानकल्पतां आत्मा विज्ञानकल्पतां यज्ञो यज्ञानकल्पताम् एकातमे तिस्रश्च मे पञ्चतमे सप्त च मे एकादशत भय त्रयोदश च भय पञ्चदशतमे सप्तदश च भै नवदश भ एकविगिंजिष्ठभय त्रयोभिगिंजदिष्ठभयपञ्चविगिंजनिष्ठमे सप्तविगुजदिष्ठभै नवविगिंजनिष्ठ भ एकत्रिगंज भय त्रयस्त्रिगंज भय चतुस्रश्चभेष्टौचभे द्वादश च भेषोडशतमे विग्ंशरिष्ठभे चतुर्विग्जदिष्ठभेष्टाद्गिंजिष्ठभे चत्वारिविंशत्य म् े षट्विंशत्यमे चत्वारि विंशत्य े चतुश्चत्वारिविंशत्य ेष्टाचत्वारिविंशत्य े वाजश्च प्रसवश्च भिश्चच्रतुश्च सुरश्च भोक्ता चाध्याश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च पीडा देवोर्मनुर्यज्ञने हस्पतिरुक्ता पदानि षडुषे षद्विष्टवा मा माहिते मधुमनुष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीं देवेभ्यो वासभुद्यासपुंशुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोनुमदन्तु ॐ शान्तिः शान्तिः शान्तिः